यणोपनिषत् नारायणोपनिषत् इस् डिफ़्रेण्ट् फ्रम् महानारायणोपनिषत् ओ सहनावतु सहनौ भुनक्तु सह वीर्यङ्करवावहै तेजस्विनावधितमस्तु मा विद्विषावहै ॐ शान्तिः ॐ अध पुरुषोह वै नारायणोकामयदप्रजासृजेयेधि नारायणात्प्राणोजायते मनःसर्वेन्द्रियाणि च कं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणि नारायणाद् ब्रह्मा जायते नारायणाद्ुद्रो जायते नारायणादिन्द्रो जायते नारायणात् प्रजापदयः प्रजायन्ते नारायणाद्वादशादित्या रुद्रा वसवः सर्वाणि च छन्था गुंसि नारायणादेवसमुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते ॐ अधनित्यो नारायणः ब्रह्मा नारायणः शिवश्च नारायणः शक्रश्च नारायणः द्यावापृथिव्याौ च नारायणः कालश्च नारायणः दिशश्च नारायणः ऊर्ध्वश्च नारायणः अधश्च नारायणः अन्तर्बभिश्च नारायणः नारायण एवेदगं सर्वं यद्भूतं यच्च भव्यं निष्कलो निरञ्चनो निर्विकल्पो निराख्यादशुद्धो देव एको नारायणः न द्वितीयोऽस्ति कश्चिद् य एवं वेद स विष्णुरेव भवति स भवति ओमित्यग्रे व्याहरेद नम इति पश्चाद् नारायणायेत्युपरिष्ठाद ॐमित्येकाक्षरं नम इति द्वे अक्षरे नारायणायेदि पञ्चाक्षराणि ये दद्वै नारायणस्याष्ठाक्षरं पदम् यो ह वै नारायणस्याष्ठाक्षरं पदमध्येधि सर्वमायुरेदि विन्दते प्राजापत्यगं रायस्पोषं गौपत्यं तदो मृदत्वमश्नुदे तदो मृदत्वमश्नुद इति य एवं प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपं अकार उकार मकार इति ताने कथा समभरतदे ददोमिति युमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनाद ओन्नमो नारायणा यदि मन्द्रोपासकः वैकुण्ठभुवनलोकं गमिष्यदि तदिदं परं पुण्डरीकं विज्ञानखनं तस्मात् तदिधावन्मात्रं ब्रह्मण्यो देवगीपुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्तमेकं नारायणम् कारुण्यरूपमकारपरब्रह्मो ये ददधर्वशिरो यो धीते प्रादरधीयानो रात्रिकृदम् पापन्नाशयदि सायमधीयानो दिवसकृतं पापन्नाशयदि माध्यन्दिनमादित्यभिमुखो धीयानः पपादकात् प्रमुच्यते सर्ववेदपारायणपुण्यं लभते नारायणसायुज्यमवाप्नोति नारायणसायुज्यमवाप्नोति य एवं वेद इत्युपनिषद ॐ शान्तिशान्तिशान्तिः